अथ कृष्णयजुर्वेदे क्रमपाठे तृतीयकाण्डे द्वितीयः प्रश्नः प्रारम्भः ओ यो वै वै पवमानानाम् पवमानानामन्वारोहान् अन्वारोहान् विद्वान् अम्वारोहान् इत्यनु आरोहान् आरोहति रोहति न पवमानेभ्यः पवमानेभ्यो वा अवच्छिद्यते छिद्यते श्येनः श्योसि इति गायत्राच्छन्दाः ननुत्वा आरभे रभे स्वस्ति स्वस्ति मा मासम् सम्पारय पारय सुपर्णः इति सुपर्णः असति पृष्टच्छन्दाः तृष्टुप्छन्दा इति तृष्टुप्छन्दाः अनुत्वा आरभे प्रभे स्वस्ति स्वस्तिमा मासम् सम्पारय पारय सघाः सघासि अस्य जगतीच्छन्दाः जगतीच्छन्दा ननु जगतीच्छन्दा इति जगतीच्छन्दाः अनुत्वा आरभे प्रभे स्वस्ति स्वस्तिमाः मासम् सम्पारय पारयेति इत्याह आहयते एते वै वैपवमानानाम् पवमानानामन्वारोहाः अन्वारोहास्तान् अन्वारोहायु आरोहाः तान् यः एवम् एवम् विद्वान् विद्वान् यजते यजते नु अनुपवमानान् पवमानाना न पवमानेभ्यः पवमानेभ्यो वा न छिद्यते यो वै वैपवमानस्य पवमानस्य सन्ततिम् सन्ततिम् वेद सन्ततिमिति सन्ततिम् वेद सर्वम् सर्वमायुः आयुरेति एति न पुरा पुरायुषः आयुषः प्रमीयते मीयते पशुमान् पशुमान्भवति पशुमान्ति भवति विन्दते विन्दते ये प्रजाम् प्रजाम् पवमानस्य प्रजामिति प्राजाम् पवमानस्य ग्रहाः ग्रहागृह्यन्ते गृह्यन्तेथ उपा अस्य तस्यैते एते गृहीताः अगृहीता द्रोणकलशः द्रोणकलश आधवनीयः द्रोणकलश इति द्रोणकलशः आधवनीयः पूतभृत् आधवनीय इत्याधवनीयः पूतभृतान् पूतभृदिति पूतभृत् तान् यत् यदगृहीत्वा अगृहीतोपाकुर्यात् उपाकुर्यात्पोमानम् उपाकुर्यादित्युपाकुर्यात् पोमानम् विच्छिन्द्यात् छिन्द्यात्तम् तम् विच्छिद्यमानम् विच्छिद्यमानमद्धर्योः विच्छिद्यमानमिति विच्छिद्यमानम् तद्धर्योः प्राणः प्राणो नु प्राण इति प्राणः अनु विच्छिद्येत छिद्येतोपयामगृहीतः उपयामगृहीतोऽसि प्रयामगृहीत इत्युपयामागृहीतः असि प्रजापतये प्रजापतये त्वा प्रजापतयेति प्रजापतये इति प्रजा द्रोणकलशम् द्रोणकलशमभि द्रोणकलशमिति द्रोणकलशम् अभिपृषेत् पृषेदिन्द्राय इन्द्रायत्वा ेति इत्याधवनीयम् आधवनीयम् विश्वेयेभ्यः आधवनीयमित्याधवनीयम् विश्वेयेभ्यस्त्वा पादेवेभ्यः देवेभ्यैति इति भूतभृतम् पूतभृतम् भौमानम् पूतभृतमिति पूतभृतम् पौमानमेव एव तत् तत्सम् सन्तनोति तनोति सर्वम् सर्वमायुः आयुरेति एति न पुरा पुरायुषः आयुषः प्र प्रमीयते मीयते पिशुमान् पशुमान् भवति पशुमानिति पृशुमान् भवति विन्दते ए इन्दते यत् प्रजाम् प्रजामिति वावसवनानि, त्रीणि वाव वाव सबलानि सबलान्यथ अथ तृतीयम् तृतीयम् सबलम् सबलमव अवलुम्पन्ति लुम्पन्ति अनघुंषु अनघुंषु कुर्वन्तः कुर्वन्त उपागुंशुम् उपागुंशुकम् हुत्वा उपागुंशुमित्युपागुंशुम् कुत्रोपागुंशुपात्रे उपागुंशुपात्रेऽगुंशुम् उपागुंशुपात्रे इत्यपागुंशुपात्रे अगुंशुमवास्य अवास्यतम् अवास्येत्यपास्य तम् तृतीयसवने तृतीयसवनेऽपिसृज्य तृतीयसवन इति तृतीयसवने अभिसृज्याभि अभिसृज्येत्यपिसृज्य अभिषुमयात् सुमयाद्यत् यदा आप्याययति आप्यायति तेन आप्याययतीत्या आप्यायति तेनागुंशुमत् अगुंशुमद्यत् अगुंशुमति इत्यघुं शुभत् यदभिषृणोति अभिषृणोति तेन अभिषृणोति इत्यभिशृणोति तेनर्जीषि त्रिजीषि सर्वाणि सर्वा अण्येव एव तत् तत्सवनानि सवनान्यगुं शुभन्ति अघुं शुभन्ति शुक्रवन्ति समावद्वीर्याणि करोति समावद्वीर्याणि इति समावतवीर्याणि करोति द्वौ द्वौ समुद्रौ समुद्रौ विततौ विततावचूर्यौ वितताविति अजूर्यौ पर्यावर्तेते पर्यावर्तेते जठरा पर्यावर्तेते इति परि जठरेव इव पादा आह पादा इति पादा आहः पश्यन्तः पश्यन्तौ अति अतियन्ति यन्त्यन्यम् अन्यमपश्यन्तः अपश्यन्तस्येतुना सेतुनाति अतियन्ति यन्त्यन्यम् अन्यमिन्त्यन्यम् द्वे द्रधसि द्वे इति द्वे द्रधसि सततीः द्रधसि इति द्रधसि सतती वस्ते सतती इति सततीः वस्त एकः एकः केशी केशी विश्वाः विश्वा भुवनानि भुवनानि विद्वानिति विद्वान् त्रिरोधाय इति त्रिरोधायैति एत्यसितम् असितम् वसानः वसानः शुक्रम् शुक्रमा आदत्ते दत्तेऽनुहाय अनुहायचार्यै अनुहायेत्यनुहाय जार्या इति चार्यै देवा वै वै यत् यद्यज्ञे यज्ञे कुर्वत अकुर्वत तत् तदसुराः असुरा अकुर्वत अकुर्वतते ते देवाः देवा एतम् एतम् महायज्ञम् महायज्ञमपश्यन् महायज्ञमिति महायज्ञम् अपश्यन्तम् तमतन्वत अग्निहोत्रम् अग्निहोत्रम् व्रतम् अग्निहोत्रमित्यग्निहोत्रम् व्रतमकुर्वत अकुर्वत तस्मात् तस्माद्विव्रतः द्विव्रतः स्यात् द्विव्रत इति द्विव्रतः स्याद्विः द्विभिः ह्यग्निहोत्रम् अग्निहोत्रम् जुह्वति अग्निहोत्रमित्यग्निहोत्रम् जिह्वति पौर्णमासम् पौर्णमासम् यज्ञमग्निशोमीयम् अग्निशोमीयम् पशुम् अग्निशोमीयमित्यग्नि सोमीयम् पशुमकुर्वत अकुर्वत दार्श्यम् दार्श्यम् यज्ञम् यज्ञमा आग्देयम् आज्ञेयम् पशुम् पशुमकुर्वत अकुर्वत वैश्वदेवम् वैश्वदेवम् प्रातःसवरम् वैश्वदेवमिति वैश्वदेवम् प्रातस्वनम कुर्वत प्रातस्वरमिति प्रातः समनम् अकुर्वत वरुणप्रभासान् वरुणप्रभासान् माध्यन्दिनम् माध्यन्ति लघुम् सवनम् सवलघुम् साकमेधान् साकमेधान् पितृयज्ञम् साकमेधानिति साकमेधान् पितृयज्ञम् त्र्यम्बकान् पितृयज्ञमिति पितृयज्ञम् त्र्यम्बकासनम् त्र्यम्बकानि तित्र्यम्बकान् तृतीयसवनम् कुर्वता तृतीयसवनमिति तृतीयसवनम् न कुर्वत तम् तमेषाम् येषाम् असुराः असुरायज्ञम् <शुष्या> यज्ञमन्ववाजिगाकुंसन् अन्ववाजिगाकुंसन्तम् अन्ववाजिगाकुंसन् नित्यनोवाजिगाकुम् तन्न नान्ववायन् अन्ववायन्ते अन्ववायन्नित्यनोवायन् ते अब्रुवन्न अब्रुवन्नध्वर्तव्याः अध्वर्तव्या वै बालिमे इमे देवाः देवाब्रुवन् अभ्रुवन्निति तत् तदध्वरस्य अध्वरस्याध्वर्तम् अध्वर्तम् ततः अध्वरत्वमित्यध्वरात्वम् ततो देवाः देवा अभवन् अभवन्पराः परासुराः असुरायः य एवम् एवम् विद्वान् विद्वान्सोमेन सोमेन यजते यजते भवति भवत्यात्माः आत्मना पराः परा अस्य अस्य भ्रातृव्यः भ्रातृव्यो भवति भवतीति भवति परिभोरग्निम् परिभोरिति परिभोः अग्निम् परिभूः परिभोरिन्द्रम् परिभोरितिपरिभोः इन्द्रम् परिभोः परिभोर्विश्वान् परिभोरितिपरिभोः विश्वान् देवान् देवान् परिभोः परिभोर्माम् परिभोरितिपरीभोः मा पुंसः सः ब्रह्मवर्त्यसेन ब्रह्मवर्त्यसेन सः ब्रह्मवर्त्यसेनेति ब्रह्मवर्त्यसेन सुनः नः पवस्व पवत्स्वशम् शङ्गवेः गवेशम् शञ्जनाय शनायशम् शमर्वते अर्वतेशम् शकुम् राजन् प्राजन्नोषधीभ्यः ओषधीभ्योच्छिन्नस्य ओषधेभ्येत्योषधेभ्यः अच्छिन्नस्यते ते रयीपतेः प्रीपते सुवीर्यस्य प्रीपत इति रयीपतेः सुवीर्यस्य राजः सुवीर्यस्येति सुवीर्यस्य प्रायस्पोषस्य पोषकस्य दलितारः ददितारः स्याम स्यामेदि स्याम तस्य मे मेरास्व राष्ट्रस्य तस्य ते भक्ष्ये तस्य तस्य मे इदम् इदमुद् उन्मृजे वृजेति मृजे प्राणाय मे प्राणायति प्राणाय मे वर्चोदाः वर्चसे वृक्षोदा इति वर्चहादाः अपानाय व्यानाय अपानायेत्यपानाय व्यानाय वाचे व्यानायेति बीजनाय वाचेदक्षक्रतुभ्याम् रक्षक्रतुर्भ्याम् चक्षुर्भ्याम् रक्षक्रतुर्भ्यामिति रक्षक्रतोभ्याम् चक्षुर्भ्याम् मे चक्षुर्भ्याम् विदिचक्षुःभ्याम् मे वर्चोदौ वर्चोदौ वर्चसे वर्चोदाविवर्चादौ वर्चसे पवेथा पवेथा श्रोत्रायात्मनेः आत्मनेऽङ्गेयेभ्यः अङ्गेयेभ्यः आयुषे आयुषे वीर्याय वीर्याय विष्णोः विष्णोरिन्द्रस्य इन्द्रस्य विश्वेषाम् विश्वेषाम् देवानाम् देवानाञ्जरम् जठरमसि असि वर्चोदाः वर्चोदा मे वृचोदा इति वर्चहाराः मे वृचते वृक्षते पवस्व पवस्वकः कोऽसि असि कः को नाम नाम कस्मै कस्मैनि त्वा त्वाकाय कायत्वा त्वायम् निन्द्वाः त्वासोमेन सोमेनामीमदम् अमीमदगुंसुप्रजाः सुप्रजाः प्रजयाः सुप्रजा इति सुप्रजाः प्रजया भूयासम् प्रजयेति प्राजया भूयासगुंसुवीरः सुवीरो वीरैः सुवीर इति सुवीरः वीरैस्वर्चा आह सुवर्चा वर्चसा सुवर्चा इति सुवर्चा वर्चसा सुपोषः सुपोषः पोषैः सुपोष इति सुपोषः पोषैर्विश्वेयेभ्यः विश्वेयेभ्यो मे मे रूपेभ्यः रूपेभ्यो वर्चोदाः वर्चोदा वर्चसे वर्चोदा इति वर्चः दाः वर्चसे पवस्व पवसुतस्य तस्य मे मे रास्व रास्तुतस्य तस्य रे ते भक्षीय भक्षीजतस्य तस्य ते त अवे ये क्षेत ई क्षेतैषः पात्रियः पात्रियः प्रजापतिर्यज्ञः प्रजाप्रतिथिप्रजापतिः यज्ञः प्रजापतिः प्रजापतिस्तम् प्रजापतिधिप्रजापतिः तमेव एव तर्पयति तर्पयति सः स एनम् तेनम् तृप्तः तृप्तो भूत्या भूत्याभि अभिपवते पवतेति ब्रह्मवर्त्यसकामः ब्रह्मवर्चसकामो वा ब्रह्मवर्त्यसकाम इति प्रजापतिर्यज्ञः प्रजापतिरितिप्रजाभिः यज्ञः प्रजापतिः प्रजापतिस्तम् प्रजापतिरितिप्रजापतिः तमेव एव तर्पयति तर्पयति सः स एनम् तृप्तः तृप्तो ब्रह्मवर्त्यसेना ब्रह्मवर्त्यसेनाभि ब्रह्मवर्त्यसेनेति ब्रह्मवर्त्यसेन भवतामयाभि आमयाव्यव तवे ए क्षेत ये क्षेतैषः एष वै वै पात्रयः प्रजापतिः प्रजापतिर्यज्ञः प्रजापतिरिति प्रजापतिः यज्ञः प्रजापतिः प्रजापतिस्तम् प्रजापतिरिति प्रजापतिः तमेव एव तर्पयति तर्पयति सः स एनम् एनम् तृप्तः तृप्त आयुषा आयुषाभि अभिपवते पवतेऽभिचरन् अभिचरन्न वा अभिचरन्नित्यभिचरन् अवे ये क्षेता ई क्षेतैषः एष वै वै पात्रियः प्रजापतिरिधिर्प्रजापतिः यज्ञः प्रजापतिः प्रजापतिस्तम् प्रजापतिरिधिर्प्रजापतिः तमेव एवतर्प्रयति तर्प्रयति सः स एनम् तृप्तः तृप्तः प्राणापानाभ्याम् प्राणापानाभ्याम् वाचः प्राणापानाभ्यामिति प्राणापानाभ्याम् वाचो दक्षक्रतुभ्याम् दक्षक्रतुभ्याम् चक्षुर्भ्याम् दक्षक्रतुभ्यामिति दक्षक्रतुभ्याम् चक्षुर्भ्याम् श्रोता आभ्यामात्मनः आत्मनोऽङ्गेयेभ्यः अङ्गेयेभ्यः आयुषः आयुषोऽन्तः अन्तरेति एति ताजक् ताजक्प्रधन्वति धन्वती धन्वतीति धन्वति स्फ्यः स्वस्तिः विघ्नः स्वस्तिः विघन परशुर्वेदिः वेदिः परशुः परशुर्नः अस्वस्तिः स्वस्तिरिति स्वस्तिः यज्ञया यज्ञकृतः यज्ञकृतस्था यज्ञकृत इति स्थते ते माऽस्मिन् अस्मिन् यज्ञे यज्ञ उप उपह्वयध्वम् क्वयध्वमुप ममा मा द्यावापृथिवी द्यावापृथिवी ह्वयेताम् द्यावापृथिवी इति द्यावा आपृथिवी क्वयेतामुप उपा आस्तावः आस्तावः कलशः आस्तावैत्या आस्तावः कलशः सोमो अग्निः अग्निरुप उपदेवाः देवा उपयज्ञः यज्ञोप उपमा मा होत्राः होत्रा उपहवे उपहवे ह्वयन्ताम् उपहव इत्युपाहवे हयन्तान्नमः नमोऽये अग्दये मखघ्ने मखघ्ने मखस्य मखघ्न इति मखाघ्ने ्याद् अव्यादिति इत्याहवनीयम् आहवनीयमुप आहवनीयमित्याहवनीयम् उपतिष्ठते दे, तिष्ठते दे यज्ञः यज्ञो वै वै मघः मखो यज्ञम् यज्ञम् वाव वावसः स तस्मा एव नमस्कृत्य नमस्कृत्य सदः नमस्कृत्येति नमःकृत्य सदःप्र प्रसर्पति सर्पत्यात्मनः आत्मनो नार्ति अनाहर्ते नमः नमो रुद्राय रुद्राय मखघ्ने मखघ्ने मस्कृत्या मखघ्न इति मखाघ्ने नमस्कृत्या मा नमस्कृत्येति नमः कृत्या मा पाहि पाहिलि इत्याग्नेयुद्धम् आग्नेयुद्धम् तस्मै आग्नेयद्धमित्याग्नेयुद्धम् तस्मा एव नमस्कृत्य नमस्कृत्य सदः नमस्कृत्येति नमः कृत्य सदप्रा प्रसर्पति सर्पत्यात्मनः आत्मनो नाहर्ति अनार्ति नमः नम इन्द्राय इन्द्राय मखघ्ने मखघ्न इन्द्रियम् मखघ्न इति मखाघ्ने मे मे वीर्यम् वीर्यम् मा मानिः निर्वधीः वधीरिति इति होत्रीयम् होत्रीयमाशिषम् आशिषमेव आशिषमित्र आशिषम् एवैताम् एतामा आशास्ते शास्त इन्द्रियस्य इन्द्रियस्य वीर्यस्य वीर्यस्य निर्गादाय अनिर्घाताययाः अनिर्घातायत्यनिः घाताय या वै वै देवताः देवताः सदसि सदस्यार्तिम् आर्तिमार्पयन्ति आर आर्पयन्ति यः अर्पयन्तिद्याः अर्पयन्ति यस्ताः तान् विद्वान् विद्वान् प्रसर्पति प्रसर्पति न प्रसर्पतीति न सदसि सदस्यार्तिम् आर्तिमा आर्क्षति रक्षति नमोऽग्नये अग्नये मखघ्ने मक्खग्यें, मखघ्न मक्खाग्यें, इति मखघ्न इति मखाघ्ने विद्याः आहीताः एता वै वै देवताः देवताः आर्तिमा आर्पयन्ति अर्पयन्ति ताः तायः य एवम् विद्वान् विद्वान् प्रसर्पति प्रसर्पति न प्रसर्पतीति प्रासर्पति आर्तिमा आर्च्छति दृच्छति दृढे दृढे इति दृढे स्थः शिथिरे शिथिरे समीचीः शिथिरे इति शिथिरे समीची मा समीची इति समीचीः मा गुंहसः अगुम्हसस्पातम् पादकम् सूर्यः सूर्यो मा मा देवः देवो दिव्याद् दिव्यादगुंहसः अगम्हसस्पादौ वायुवायुः वायुरन्तरिक्षात् अन्तरिक्षादग्निः अग्निः पृथिव्याः पृथिव्यायमः यमः पितृभ्यः पितृभ्यः सरस्वती पितृभ्येति पितृभ्यः सरस्वती देवी इ देवी द्वारौ देवी देवी द्वारौ मा मासम् सन्ता नमः नमः सदसे सदसे नमः नमः सदसः सदसस्पतये परये नमः नमः सखीनाम् सखीनाम् पुरोगाणाम् चक्षुषे प्ररोगाणामिति पुरः चक्षुषे नमः नमो दिवे नमः नमः पृथिव्यै पृथिव्या अहे अहे देधिषव्य देधिषव्योत् उदतः अतस्तिष्ठ तिष्ठान्यस्य अन्यस्य सदने सदने सीदयः यो अस्मत्पाकतरः पाकतरौत् पाकतर इति पाकातरः उन्निवतः निवत उत् निबत इति निवतः उदुद्वतः उद्वतश्च उद्वत इत्युदगतः च केशम् केशम् पात्रम् पात्रम् माह महाद्यावापृथिवी अद्य द्यावापृथिवी इति द्यावापृथिवी अद्याह्नः अह्नः सदः सदो वै वै प्रसर्पन्तम् प्रसर्पन्तम् प्रसर्पन्तमिति प्रासर्पन्तम् पितरो अनुप्रा प्रसर्पन्ति सर्पन्ति ते त एनम् एदमीश्वराः ईश्वराः युगुंसितोः विगुंसितोः सदः सदः प्रसर्प्य प्रसर्प्य दक्षिणार्थम् प्रसर्प्येति प्रासृप्य परे ये क्षेत ईक्षेता आगन्त अगन्तपितरः पितरः पितृवान् पितृमानहम् पितृमानिति पितृमान् अहं युष्माभिः युष्माभिर्भूयासम् भूयासम् सुप्रजसः सुप्रजसोमयाः सुप्रजस इति सुप्रजसः यया यूयम् यूजम् भूयास्त भूयास्तेति इति तेभ्यः तेभ्य एव नमस्कृत्य नमस्कृत्य सदः नमस्कृत्येति नमःकृत्य सदःप्रा प्रसर्प्रति सर्प्रत्यात्मनः आत्मनो नाहर्ति नाहर्त्यादित्यनाहार्ति भक्षा एहिहि इहि मा आविश विशदीर्घायुत्वाय दीर्घायुत्वाय शन्तनुत्वाय दीर्घायुत्वायति दीर्घायुत्वाय शन्तनुत्वाय राजः शन्तनुत्वायति शम्बननुत्वाय आयःपोषाय पोषाय वर्त्यसे वर्त्यसे सुप्रजास्त्वाय सुप्रजास्त्वाया सुप्रजास्त्वायेति सुप्रजाःत्वाय एहि इहि वसोः वसो पुरो वसोः वसो इति वसो पुरोवसो प्रियः पुरोवसो इति पुरः वसोः प्रियो मे मे हृदः हृदोऽसि अस्यश्विनोः बाहुभ्याकम् सघ्यासम् बाहुभ्यामिति बाहूभ्याम् प्रतिघ्यासम् द्रचक्षसम् द्रचक्षसम् त्वा द्रचक्षसमिति द्रचक्षसम् त्वादेव देवसोम सोम सुचक्षाः सुचक्षा वा सुचक्षा इति सूचक्षाः अपवक्षेषम् क्षेषम् मन्द्रा मन्द्राविभूतिः विभूतिः केतुः अभिभूतिरित्यभिभूतिः केतुर्यज्ञानाम् यज्ञानाम् वाग्वाग्जुषाणा विषाणा सोमस्य सोमस्य तृप्यतु तृप्यतु मन्द्रा मन्द्रा स्वर्वाचिः स्वर्वाच्यतिथिः स्वर्वाचीति सोऽर्वाची अदिदृनाहतशीर्ष्णे अनाहतशीर्ष्णे वाक् अनाहतशीर्ष्णेत्यनाहता शीर्ष्णे वाग्जुषाणा विषाढा सोमस्य सो सोमस्य तृपितौ तृप्यत्वा एहि इहि विश्वचर्षणेः विश्वदर्शने शम्भोः विश्वचर्षणे इति विश्वाचर्षणेः शम्भोर्मयोभोः शम्भूरिति शम्भोः मयोभोः स्वस्ति मयोभूरितिमयः भूः स्वस्ति मा हरिवर्ण हरिवर्णप्र हरिवर्णेति हरिवर्ण प्रचर चरक्रत्वे क्रत्वे दक्षाय दक्षाय रायः राजस्पोषाय पोषाय पोशाय सुवीरतायै सुवीरतायै मा सुवीरता, सुवीरता मा माह मा राजन् राजन्विबीभिषः बीभिषो मा राजन, राजन भी मे मे हार आर्दि त्रिषा आर द्विषावधीः वधीरितिवधीः वृषणे सुष्माय सुष्मायायुषे वर्चसे वर्चस इति वर्चसे वसुमद्गणस्य सोम वसुमद्गणस्येति वसुमद्गणस्य मतिविदः मतिविदः प्रातःसवदस्य मतिविद इति मतिविदः प्रातःसवदस्य गायत्र छन्दसः प्रातः प्रातः सवदस्य नायत्रिछन्दस इन्द्रपेतस्य नायत्रिछन्दस इति गायत्रा छन्दसः इन्द्रपेतस्य न राशकं स पीतस्य इन्द्रपेतस्येति इन्द्रापेतस्य न राशकं सपीतस्य पितृपेतस्य न राशकं शकंसापीतस्य पितृपीतस्य मधुमतः पितृपीतस्येति पितृपीतस्य मधुमत उपहूतस्य मधुमत इति मधूमतः उपहूतस्योपहूतः उपहूतस्येत्युपाहूतस्य उपहूतो भक्षयामि उपहूत इत्युपाहूतः भक्षयामि रुद्रवद्गणस्य रुद्रवद्गणस्य सोम रुद्रवद्गणस्येति रुद्रवत्गणस्य सोमदेव रेवतेः मतिविदो माध्यन्दिनस्य मतिविद इति मतिविदः माध्यन्दिनस्य सवनस्य तृष्टुच्छन्दसः क्रिष्टुच्छन्दस इन्द्रभेदस्य क्रिष्टुच्छन्दस इति त्रिष्टुप्छन्दसः इन्द्रभेदस्य न राशकंसभेदस्य इन्द्रभेदस्येति इन्द्राभेदस्य न राशकंसभेदस्य पितृभेदस्य न राशकंसभेदस्येति न राशकंसाभेदस्य पितृपेदस्य मधुमतः पितृभेदस्य इति पितृभेदस्य मधुमत उपहूतस्य मधुमत इति मधुमतः उपहूतस्योपहोतः उपहूतस्य त्युपाहूतस्य उपभूतो भक्षयामि उपहूत इत्युपाहूतः भक्षयामि आदित्यवद्गणस्य आदित्यवद्गणस्य सोम आदित्यवद्गणस्येत्यादित्यवद्गणस्य सोमदेव देवतेः ते मतिविदः मतिविद इति मतिविदः तृतीयस्य सवनस्य सर्वलस्य जगती छन्दसः जगती छन्दस इन्द्रपीतस्य जगती छन्दस इति जगती छन्दसः इन्द्रपेदस्य न राशकम् सपेतस्य इन्द्रपेदस्येति इन्द्रापीतस्य न राशकं स पेतस्य पितृपेतस्य न राशकं सपेतस्येति न मधुमतः पितृपेतस्य इति पितृपेतस्य मधुमत उपहूतस्य मधुमत इति भक्षयामि उपहूत भक्षयामीति भक्षयामि आप्यायस्व प्यायस्वसाम् समे तु ये तु तेः ते विश्वतः विश्वतः सोम स्वमवृष्णियम् वृष्णियमिति वृष्णियम् भवा वाजस्य वाजस्य सङ्गथे सङ्गथेति सङ्ग्रथे किन्वमे हरिवः हरिवो गुणान् हरिव इति मावि इतीदृशः तीदृश इति तीदृशः शिवो मे मे सप्तर्षीन् सप्तर्षीनुपसप्तर्षीनिति सप्तर्षीन् उपतिष्ठस्व तिष्ठस्व मामेवान् अवाङ्नाभिम् नाभिमति अतिगाः गायति गाः अपाम सोमम् सोममृता अमृता अभूम अभूमा दर्मा ज्योतिरविदाम अविदाम देवान् देवानिति देवान् अस्मान् कृणवत् कृणवदरातिः अरातिः किम् किमु धूर्तिः धूर्तिरमृत अमृतवर्त्यस्य मर्त्यस्य विमर्त्यस्य यन्मे आत्मनः आत्मा निन्दा निन्दाभूत् अभूदग्निः अग्निस्तत् पुनरा आह आह अहार्जातवेदाः आहा, जातवेदाविचर्षणिः दा, जातवे जातवेदा <yty> इति जातावेदाः विचर्षिणिरिवीचर्षिणिः पुनरग्निः अग्निश्चक्षुः चक्षुरतात् चक्षु रदात्पुनः पुनरिन्द्रः इन्द्रो बृहस्पतिः बृहस्पतिरिति दे बृहस्पतिः पुनर्मे मे अश्विनाः अश्विना इवम् इवम् चक्षुः चक्षुरा आधत्तम् धत्तमक्षोः अक्षोरित्यक्षोः इष्टयजुषस्य इष्टयजुष इति इष्टायजुषः ते देव देवसोम स्वामस्तुतस्वामस्य सुतस्वामस्य शस्तोर्धस्य श्रुतस्वामस्येति स्तुतास्वामस्य शस्तोर्धस्य हरिवतः शस्तोऽर्धस्येति शस्ता उक्थस्य हरिवत इन्द्रपीतस्य हरिवत इति हरिवतः इन्द्रपीतस्य मधुमतः इन्द्रपेतस्येति इन्द्रापीतस्य मधुमत उपहूतस्य मधुमत इति मधुमतः उपहूतस्योपहूतः उपहूतस्येत्युताहूतस्य उपहूतो भक्षयामि उपहूत इत्युपाभूतः भक्षयामीति भक्षयामि आपूर्या अस्थ आपूर्या इत्या आपूर्याः स्था आमापूरयत पूरयत प्रजया प्रजया च प्रजयेति प्राजयाः च धनेन धनेन चेति च एतत्तेः तेत ततये ये च षत्वाम् त्वामनु अन्वेतत् एतत्ते ये ते प्रपितामहये प्रपितामहेति प्रापितामह ये चत्वामनु अन्वत्र अत्र पितरः पितरो यथाभागम् यथाभागम् वन्दध्वम् यथाभागमिति यथाभागम् नमः नमो वः वःपितरः पितरो रसाय नमः नमो वः वः पितरः पितरः नमः नमो वः वः पितरः पितरो नमः नमो वः इतरस्वधायैः स्वधायै नमः स्वधाय इति स्वाधायैः नमो वः वः पितरः पितरमन्यले ये मन्यवे नमः नमो पितरः पितरो नमः नमो वः भोजे येतस्मिन् एतस्मिन् ये लोके लोके स्थ स्थयुष्मान् तेनो तेनोनुजे ये यस्मिन् तस्मिन् लोके लोके दस माम् माम् ते ननुये य एतस्मिन् एतस्मिन् लोके लोके स्थ स्थ यूयम् यूयम् तेषाम् तेषाम् वसिष्ठाः वसिष्ठा भूयास्त अस्मिन् लोके लोकेऽहम् अहम् तेषाम् तेषाम् वसिष्ठः वसिष्ठो भूयासम् भूयासम् प्रजापते प्रजापतेन प्रजापत इति प्रजापते न त्वद्देतानि एतान्यः अन्या विश्वाः विश्वाजातानि जातानि जाता परि परिता बभूव बभूवेति बभूव यत्कामास्ते यत्कामा इति यत् कामाः ते जुहुमः जुहुमस्तत् तन्नः नो अस्तु अस्तु वयम् वयगृहस्याम श्यामपतयः पतयोरयीणाम् रयीणामिति रयीणाम् देवकृतस्येन सह देवकृतस्येति देवाकृतस्य येन सो वयजनम् अवयजनमसि अवयजनमित्यवायजनम् असि मनुष्यकृतस्य मनुष्यकृतस्येन सह मनुष्यकृतस्येति मनुष्याकृतस्य येन सो वयजनम् अवयजनमसि अवयजनमित्यवायजनम् असि पितृकृतस्य पितृकृतस्येन सह पितृकृतस्येति पितृकृतस्य येन सो वयजनम् अवयजनमसि अवयजनमित्यवायजनम् अस्यप्सु अप्सु धौतस्य अप्सित्यभूसु धौतस्य सोमदेव देवतेः तैर्भिः सुतस्य सुतस्येष्टयजुषः इष्टयजुषः स्तुतस्त्वामस्य इष्टयजुष इष्टायजुषः सुतस्त्वामस्य शस्तोऽर्थस्य सुतस्त्वामस्येति स्तुतास्त्वामस्य शस्तोऽर्थस्य यः शस्ता उर्थस्य यो भृक्षः भक्षो अश्वसिनिः अश्वसनिर्यः अश्वसनिरित्यश्वासिनिः यो गोसुनिः तस्य ते पितृभिः पितृभिर्भक्ष्यम् कृतस्य पितृभिरिति पितृभिः भक्ष्यम् कृतस्योपहूतस्य भक्षम् कृतस्येति भक्ष्यम् कृतस्य उपहूतस्योपहूतः उपहूतस्येत्युपाहूतस्य उपभूतो भक्षयामि उपहूत इत्युपाहूतः भक्षयामि महीनाम्बजः रेऽसि विश्वेषाम् विश्वेषाम् देवानाम् देवानाम् तमोः तनोरध्यासम् रध्यासमद्य अद्य पृषतीनाम् पृषतीनाम् ग्रहम् ग्रहम् पृषतीनाम् पृषतीनाम् ग्रहः रहोऽसि रसि हृदयमसि अस्येकम् एकमिष इष विष्णुः विष्णुस्त्वा विचक्रमे चक्रमे भूतिः भूतिर्दध्ना दध्ना घृतेन घृतेन वर्धराम् तस्य तस्य मा इष्टस्य इष्टस्य वेदस्य द्रविणम् द्रविणमा आगम्यात् गम्या ज्योतिः ज्योतिरसि तस्य वैश्वादरम् वैश्वादरम् पृश्न्यै पृष्ण्यै दुग्धम् दुग्धम् यावती यावती द्यावापृथिवी यावती इति यावती या वापृथिवी महित्वा यावापृथिवी इति द्यावा आपृथिवी महित्वा यावत् महित्वेति यावच्च सप्त सप्त सिन्धवः सिन्धवो वितस्थो वितस्थुरिति वितस्थुः तावन्तमिन्द्र इन्द्रतेः हे ग्रहम् ग्रहंसह सहोर्जा ऊर्जा यत्कृष्णशकुनः कृष्णशकुनः कृष्णशकुन इति कृष्णाशकुनः पृषदाज्यमवमृषेत् पृषदाज्यमिति पृषत् आर्ज्यम् मम मृषे इत्य वाभृषेत् शूद्रा अस्य अस्य प्रमायुकाः प्रमायुकाः प्रमायुका इति प्रामायुकाः स्युर्यत् यक्ष्वा श्वावृषेत् अवमृषेचतुष्पादः अवमृषेदित्यवापृषेत् चतुष्पादोऽ स्या चतुष्पाद इति चतुः पादः पशवः पशवः प्रमायुकाः प्रमायुका प्रमायुका इति प्रामायुकाः स्युर्यत् यत्स्कन्दे एतत् स्कन्दे युजमानः यजमानः प्रमायुकः प्रमायुकः स्यात् प्रमायुक इति प्रमायुकः स्यात्पशवः पशवो वै वै पृषदाज्यम् पृषदाज्यम् पशवः पृषदाज्यमिति पृषत् आज्यम् पशवो वा एतस्य एतस्य स्कन्दन्ति स्कन्दन्ति यस्य यस्य पृषदाज्यम् पृषदाज्यग्स्कन्दति पृषदाज्यमिति पृषत् आज्यम् यत्पृषदाज्यम् पृषदाज्यम् पुनः पृषदाज्यमिति पृषत् आज्यम् पुनर्गृह्णाति गृह्णाति पृषून् पृशूनेव एवास्मैः अस्मै पुनः पुनर्गृह्णाति गृह्णाति प्राणः प्राणो वै प्राण इति प्रा प्राणः पृषदाज्यमिति पृषत् आज्यम् प्राणो वै प्राण वा एतस्य एतस्य स्कन्दति स्कन्दति यस्य यस्य पृषदाज्यम् पृषदाज्यग्स्कन्दति पृषदाज्यमिति पृषत् आद्यम् स्कन्दति यत् यत्पृषदाज्यम् पृषदाज्यम् पुनः पृषदाज्यमिति पृषत् आद्यम् पुनर्गृह्णाति गृह्णाति प्राणम् प्राणमेव प्राणमिति प्राणम् अस्मै पुनः पुनर्गृह्णाति गृह्णाति हिरण्यम् हिरण्यमवधाय अवधाय गृह्णाति अवधायतवधाय गृह्णात्यमृतम् अमृतम् वै वै हिरण्यम् हिरण्यम् प्राणः प्राणः प्राण इति प्राह्णः द्विषदाज्यमृतम् द्विषदाज्यमिति पृषत् आद्यम् अमृतमेव एवास्य अस्य प्राणे प्राणे दधाति प्राण इति प्राणे दधाति शतमानम् शतमानम् भवति शतमानमिति शतमानम् भवति शतायुः शतायुष्पुरुषः शतादिति शत आयुः पुरुषः शतेन्द्रियः शतेन्द्रिय आयुषि शतेन्द्रिय इति शत इन्द्रियः आयुष्येव एवेन्द्रिये इन्द्रिये प्रति कृतिष्ठति तिष्ठत्यश्वम् अश्वम् वा अवघ्रापयति घ्रापयति प्राजापत्यः प्राजापत्यो वै प्राजापत्य इति प्राजापत्यः वा अश्वः अश्वः प्राजापत्यः प्राजापत्यः प्राणः प्राजापत्यैति प्राजापत्यः प्राणस्वात् प्राण इति प्राणः स्वादेव एवास्मैः अस्मै योनेः योनेः प्राणम् प्राणन्निः प्राणविति प्राणम् निर्मिमीते मे देवि विवै वा एतस्य एतस्य यज्ञः यज्ञच्छिद्यते छिद्यते यस्य यस्य पृषदाज्यम् पृषदाजग्स्कन्दति पृषदाज्यमिति पृषत् आद्यम् स्कन्दति वैष्णव्या वैष्णव्यर्चा ऋचा पुनः नर्गृह्णाति गृह्णाति यज्ञः यज्ञो वै वै विष्णुः विष्णुर्यज्ञेन यज्ञेनैव एव यज्ञम् यज्ञगुंसम् सन्तनोति तनोतीति तनोति एव सवितः सवितरेतत् एतत्ते ये प्र प्राह आहतत् तत्प्र च सुवप्र च यज यज बृहस्पतिः बृहस्पतिर्ब्रह्मा ब्रह्मायुष्मत्याः आयुष्मत्या ऋषः ऋचो मा मा गात गाततनोपात् तनोपात्साम्नः तनोपादिति तनूपात् साम्नः सत्याः सत्या आकूतयः आकूतयऋतम् आकूतय इत्याकूतयः स्तुतम् च सत्यम् सत्यम् च वदत वदतस्तुत स्तुतदेवस्य देवस्य सवितुः सवितः प्रसवे प्रसवे स्तुतस्य प्रसव अस्यूर्जम् ऊर्जम् मह्यम् मह्यग्स्तुतम् स्तुतम् आमा स्तुतस्य स्तुतस्य स्तुतम् गम्याच्छस्त्रस्य शस्त्रस्य शस्त्रम् शस्त्रमसि अस्यूर्जम् ऊर्जम् मह्यम् मह्यकम् शस्त्रम् शस्त्रम् दुहा दुहामा आमाह मा शस्त्रस्य शस्त्रस्य शस्त्रम् शस्त्रङ्गम्याद् गम्यादिन्द्रियावन्तः इन्द्रियावन्तो वनामहे इन्द्रियावन्त इति इन्द्रियावन्तः अनामहे धुक्षीमहि धुःक्षीमहि प्रजाम् प्रजामिषम् प्रजामिति इषमितीशम् सा मे मे सत्या सत्याशीः आशीर्देवेषु आशीरित्या आशीः देवेषु भूयात् भूयाद्ब्रह्मवर्चसम् ब्रह्मवर्चसम् मा ब्रह्मवर्चसमिति ब्रह्मवर्चसम् मा आगम्यात् गम्यादिति गम्यात् यज्ञाबभूव बभूवसः स आ आपभूव बभूवसः स प्रजज्ञे यज्ञे सः स वावृधे वावृध इति वावृधे सदेवानाम् देवानामधिपतिः अधिपतिर्बभूव अधिपतिरित्यधिपतिः बभूव सः सोऽस्मान् अस्माकम् अधिपतीन् अधिपतीन् करोतु अधिपतीत्यधिपतीन् करोतु वयम् वयगस्याम स्याम पतयः पतयोर्यीणाम् ऋयीणामिति रयीणाम् वै वै यज्ञपतिम् दुहे यज्ञपतिमिति यज्ञावृतिम् दुहे यज्ञपतिः यज्ञपतिर्वा यज्ञपतिरिति यज्ञावृतिः वा यज्ञम् यज्ञम् दुहे दुहेसः स यः यस्तुतशस्त्रयोः स्तुतशस्त्रयोर्दोहम् यजते यजते तम् यज्ञः यज्ञो दुहे दुहेसः स इष्ट्वा इष्ट्वा पापीयान् पापीयान् भवति भवति यः येनयोः येन योर्दोहम् दोहम् विद्वान् यजते यजते सः स यज्ञम् यज्ञम् दुहे वसीयान् भवति भवति स्तुतस्य स्तुतस्य स्तुतम् स्तुतमसि अस्योर्जम् ऊर्जम् मह्यम् मह्यग्स्तुतम् स्तुतन्दुहा दुहामा आमाः मा शस्त्रस्य शस्त्रम् शस्त्रमसि अस्योर्जम् ऊर्जम् मह्यम् मह्यकम् शस्त्रम् शस्त्रम् दुहाम् दुहामा आमाह मा शस्त्रस्य शस्त्रस्य शस्त्रम् शस्त्रम् गम्यात् गम्यादिति इत्याह आहैषः एष वै वै स्तुतशस्त्रयोः श्रुतशस्त्रयोर्दोहः श्रुतशस्त्रयोरितिस्तुताशस्त्रयोः दोहस्तम् तञयः य एवम् एवम् विद्वान् विद्वान् यजते यजते दुहे दुह एव यज्ञम् यज्ञमिष्ट्वा इष्ट्वावसीयान् वसीयान् भवति भवतीति भवति श्येनायपत्वने पत्वने स्वाहा स्वाहावट् वटस्वयमभिघूर्ताय स्वयमभिहूर्ताय नमः स्वयमभिघूर्तायेति स्वयम् अभिघूर्ताय माविष्टम्भाय इष्टम्भाय धर्मणे इष्टम्भायेति विस्तम्भाय धर्मणे स्वाहा स्वाहावट् वटस्वयमभिघूर्ताय स्वयमभिघोर्ताय नमः स्वयमभिघोर्तायेति स्वयम् अभिघोर्ताय नमः परिधयेः परिधे जनप्रथनाय परिधय इति परिधयेः जनप्रथनाय स्वाहाह जनप्रथनायेति जनाप्रथनाय स्वाहावट् वट्स्वयमभिघोर्ताय स्वयमभिघोर्ताय नमः स्वयमभिघोर्तायेति स्वयम् अभिघोर्ताय नमऊर्जे ऊर्जे होत्राणाम् होत्राणागस्वाहा स्वाहावट् वट्स्वयमभिघोर्ताय स्वयमभिघोर्ताय नमः स्वयमभिघूर्तायति स्वयम् अभिघूर्ताय नमः पयसे पयसे होत्राणाम् होत्राणागस्वाहा स्वाहावट् वटयमभिघोर्ताय स्वयमभिघोर्ताय नमः स्वयमभिघोर्तायति स्वयम् अभिघूर्ताय नमः प्रजापतये प्रजापतये मनवे प्रजापतये यदिति प्रजापतये नवे स्वाहाः स्वाहावट् वटक्षयमभिघोर्ताय नमः स्वयमभिघूर्तायेति स्वयम् अभिघूर्ताय नम ऋतम् ऋतवृतपाः ऋतपाः सुर्वा ऋतपावित्रितापाः सुवर्वाट् स्वाहा सुवर्वाट् इति सुवाहावाट् स्वाहावट् पट्स्वयमभिघूर्ताय नमः स्वयमभिघोर्तायति स्वयम् अभिघूर्ताय नमस्त्रम्पन्ताम् त्रम्पन्ता ब्रह्मोत्रा आह होत्रामधोः मधोर्घृतस्य घृतस्य यज्ञपतिम् यज्ञपतिमृषयः यज्ञपतिमिति यज्ञापतिम् कृषयेन सा एनसाहो आहोरित्याहोः प्रजा निर्भक्ताः प्रजा इति प्राजाः निर्भक्ता निर्भक्ताः इति निहिभक्ताः न तप्यमानामधव्यौ ननुतप्यमाना इत्यनु तप्यमानाः स्तोकौ स्तोकावप आपातौ तौ रराध रराधेति सन्नः अस्ताभ्याहम् ताभ्यागुंसृजतु सृजतु विश्वकर्मा विश्वकर्मा घोराः विश्वकर्मा घोराऋषयः ऋषयो नमः नमोऽस्तु अस्त्वेभ्यः तेभ्य इत्येतेभ्यः चक्षुष मनसः मनसश्च च सन्धौ बृहस्पतये सन्धाविति सान्धौ बृहस्पतयेमहि माहिषत् सद्युमत् द्युमन्नमः द्युमदिति द्युमत् नमो विश्वकर्मणे विश्वकर्मणे सः विश्वकर्मण इति विश्वाकर्मणे स उ उपातु पात्वस्मान् अस्मानन्यान् अनन्यान् सोमपान् सोमपान् मन्यमानः सोमपान् प्राणस्य विद्वान्समरे समरेण समर इति समरे न धीरः धीर एनः येनश्चक्रुवान् चक्रुवान्महि महि बद्धः बद्ध एषाम् येषामित्येषाम् तम् विश्वकर्मन् विश्वकर्मन् प्र विश्वकर्मन्निति विश्वाकर्मन् प्रपुम् च पुञ्चाः ये भक्षयन्तः भक्षयन्तो न न वसूनि वसून्याद्रुहुहः आन्द्रुहुवृत्याः या नग्नयः अर्गयोऽन्वतप्यन्त अन्वतप्यन्तधिष्ण्याः अन्वतप्यन्तेत्यनुवतप्यन्तधिष्ण्य इयम् इयम् तेषाम् तेषामवया अवया दुरिष्ट्यै दुरिष्ट्यै स्विष्टिम् दुरिष्ट्या इति दुः इष्टिः स्वेष्टिम्नः स्विष्टिमिति सो इष्टिम् नस्ताम् ताम् कृणोतु कृणोतु विश्वकर्मा विश्वकर्मेति विश्वाकर्मा नमः पितृभ्यः पितृभ्यो अभि पितृभ्यैः पितृभ्यः अभिये येनः नो रक्ष्यन्ते अर्क्ष्यन् यज्ञकृतः यज्ञकृतो यज्ञकामाः यज्ञकृत इति यज्ञाकृतः यज्ञकामाः सुदेवाः यज्ञकामा इति यज्ञाकामाः सुदेवा अकामाः सुदेवा इति सुदेवाः अकामावः वो दक्षिणाम् दक्षिणान्न नीनिव ये ममा मानः नस्तस्मात् तस्मादेन सह येन सह पापयिष्ट पापयिष्टेति पापयिष्ट यावन्तो वै वै सदस्या आह सदस्यास्ते ते सर्वे सर्वे दक्षिण्या आह दक्षिण्या आस्तेभ्यः तेभ्यो यः यो दक्षिणाम् दक्षिणान्न न न येत् न एभ्यो वृश्चेत वृश्चेरयत् यद्वैईश्वकर्मणानि वैश्वकर्मणानि जुहोति वैश्वकर्मणानि इति वैश्वाकर्मणानि जुहोति सदस्यानि सदस्यानेव एव तत् तत्प्रीणाति अस्मे अस्मेदेवासः अस्मे इत्यस्मे एवासो वपुषे वपुषे चिकित्सत चिकित्सतयम् यमाशिराः आशिरा दम्पती दम्पती वामम् दम्पती इति दम्पती वामश्नुतः अश्नुत अश्णता इत्यश्नुतः पुमान् पुत्रः पुत्रो जायते जायते विन्दतेः विन्दते वसु वस्वथ अथ विश्वेः विश्वे अरपाः रपा एधते एधते गृहः गृह गृहः आशीर्दाया दम्पती आशीर्दाया इत्याशीः दाजा दम्पती वामम् दम्पती इति दम्पती वाममश्नुताम् अश्नुतामरिष्टः अरिष्टो रायः रायस चम् समोकसा समोकसेदिसम् ओकसा य आसिचत् असि चत् सन्दुग्धम् सन्दुग्धम् कुम्भ्या सन्दुग्धमिति साम् दुग्धम् कुम्भ्या सह सहेष्टेन इष्टेन यामन् यामन् न मतिम् अमतिञ्जहातु जहातु सः सः सर्पिर्ग्रीवीपीबरी सर्पिर्ग्रीवीति सर्पिः ग्रीवी पीबर्यस्य अस्य जाजा जाजा पीवानः प्लीबानः पुत्रः पुत्रा अग्रशासः अग्रशासो अस्य अस्येत्यस्य सहजा निर्यः सहजा निरितिसहा जानी यः सुमहस्यमानः सुमखस्यमान इन्द्राज सुमखस्यमान इति सुमुखस्यमानः इन्द्राजाशिरम् आशिरकुंसः सह कुम्भ्या कुम्भ्यादात् अदादित्यदात् आशीर्मे आशीरित्या आशीः मऊर्जम् ऊर्जमुत उत सुप्रजास्त्वम् सुप्रजास्त्वमिषम् सुप्रजास्त्वमिति सुप्रजाः त्वम् इषम् प्रविणकम् सवर्चसम् सवर्चसमिति सावर्चसम् सञ्जयन् क्षेत्राणि सञ्जयन्निति साञ्जयन् क्षेत्राणि सहसा सहसाहम् अहमिन्द्र इन्द्रकण्वानः कन्वानो अन्यान् अन्याकुम् अधरान् अधरान् सपत्नान् सपत्नानिति सपत्नान् भूतमसि इति भूते भूते माह माधाः धामुखम् मुखमसि असिमुखम् मुखम् भूयासम् भूयासन् द्यावापृथिवीभ्याः द्यावापृथिवीभ्याम् त्वा द्यावापृथिवीभ्यामि द्यावाः पृथिवीभ्याम् त्वापरि परिगृह्णामि गृह्णामि विश्वे विश्वे त्वा त्वा देवाः देवा वैश्वाधराः वईश्वाधराः प्रच्यावयन्तु च्यावयन्तु दिवि दिवि देवान् देवान् नृगम्ह द्रकुम्हा नृबह्हान्तरिक्षे अन्तरिक्षे पयागुंसि पयागुंसि पृथिव्याम् पृथिव्याम् पार्थिवान् पार्थिवान् ध्रुवम् ध्रुवम् ध्रुवेण ध्रुवेण हविषाः अविषाम अवसोमम् सोमम् नयामसि नयामसि इति नयामसि यथा नः नः सर्वम् सर्वमित् इज्जगत् जगदयक्ष्मम् आह सुमना असत् सुमना इति सुमना आह असदित्यसत् यथा नः न इन्द्रः इन्द्र इति इद्विषः विशः केवलीः सर्वा आह सर्वाः समनसः समनसः करत् इति सा मनसः करदिति करत् यथा नः नः सर्वाह सर्वा इति इद्दिशः दिशोऽस्माकम् अस्माकम् केवलीः केवलीरसन् असन्नित्यसन् यद्वै वै होताः होता, होता अध्वर्युम् एनमभि अभिप्रा प्रवर्तयति वर्तयत्युक्थशाः उक्थशा इति उक्थशा इत्युक्था इत्याह आह प्रादःसवनम् प्रादःसवनम् प्रतिगीर्य प्रादःसवनमिति प्रातः सवनम् प्रतिगीर्य त्रीणि प्रतिगीर्येति प्रतिगीर्य त्रीण्येतानि एतान्यक्षराणि अक्षराणि त्रिपदाः त्रिपदा गायत्री त्रिपदेति त्रिपदाः गायत्री गायत्रम् गायत्रम् प्रादःसवनम् प्रादस्सवनम् सवनम् रायत्र्यैव एव प्रातःसवने प्रातःसवने वज्रम् प्रातःसवनेति प्रातः सवने वज्रमन्तः अन्तर्ध्वत्ते वाचि वाचीति वाची इत्याह आहमाध्यन्दिनम् माध्यन्दिनकम् सवनम् सवनम् प्रतिकीर्य प्रतिकीर्य चत्वारि प्रतिकीर्येति प्रतिकीर्य चत्वार्य एतान्यक्षराणि अक्षराणि चतुष्पदा चतुष्पदात् तृष्टभ चतुष्पदे त्रि चतुः पदाः तृष्टप्त्रैष्भुम् त्रैष्वभुम् माध्यन्दिनम् माध्यन्दिनकम् सवनम् सवनम् द्रष्टुभाः द्रष्टुभैव एवमाध्यन्दिने माध्यन्दिने सवने सवने वज्रम् वज्रमन्तः अन्तर्धत्ते धत्त उक्थम् उक्थम् वाचि वाचीन्द्राय इत्याह आह तृतीयसवनम् तृतीयसवलम् प्रतिकीर्य तृतीयसभनमिति तृतीया सवनम् प्रतिकीर्य सप्त प्रतिकीर्येति प्रतिकीर्य सप्तैतानि एतान्यक्षराणि अक्षराणि सप्तपदा सप्तपदाशक्वरी सप्तपदेति सप्तापदा शक्वरी शा क्वरः वज्रो वज्रेण वज्रेण तृतीयसवने तृतीयसव्रम तृतीयसवन यृतीयने वज्रम्त अंतर्धत्ते धत् ब्रह्मवादि ब्रह्मवादं ब्रह्मवादि ब्रह्मवादि वद्दी सह सयि व अध स यो यथा सवनम् यथा सवनम् प्रतिकरे यथा सवनमिति यथा सवनम् प्रतिकरे छन्दागुंसि प्रतिकर इति प्रतिकरे छन्दागुंसि सम्पादयेत् सम्पादयेत् तेजः सम्पादयेदिति सम्पादयेत् तेजः प्रादःसवने प्रादस्सवन आत्मन् प्रादस्सवन इति प्रातः सवने आत्मन्दधीत माध्यन्दिने सवने सवने पशून् पशोकस्तृतीयसवने तृतीयसवन इति तृतीयसवन इति तृतीयासवने इत्युक्थशाः उक्थशा इति उक्थशा इत्युक्था इत्याह आह प्रादःसवनम् प्रादःसवनम् प्रतिकीर्य प्रादस्सवनमिति प्रातः सवनम् प्रतिकीर्य त्रीणि प्रतिकीर्येति प्रतिकीर्य त्रीण्येतानि एतान्यक्षराणि अक्षराणि त्रिपदाः त्रिपदा त्रिपदेति त्रिपदाः गायत्रे गायत्रम् गायत्रम् प्रादःसवनम् प्रादस्सवनम् प्रादस्सवने प्रादस्सवनमिति प्रातः सवनम् प्रादस्सवन एव प्रादःसवन इति प्रातः सवने एव प्रतिघरे प्रतिकरे छन्दागुंसि प्रतिकर इति प्रतिघरे अथो तेजः तेजोवि वै गायत्री गायत्री तेजः प्रादस्सवनम् प्रादस्सवनम् तेजः प्रादस्सवनमिति प्रातः सवनम् एव एव प्रातःसवने प्रातःसवन आत्मन् प्रादस्सवन प्रातः सवने आत्मन् धर्ते धत्त उक्थम् उक्थम् वाचि वाचीति इत्याह आहमाध्यन्दिनम् माध्यन्तिनघम् सवनम् सवनम् प्रतिकीर्य प्रतिकीर्य चत्वारि प्रतिकीर्येति प्रतिकीर्य चत्वार्येतानि एतान्यक्षराणि अक्षराणि चतुष्पदा चतुष्पदात्रष्टुप् चतुष्पदे चतुः पदाः त्रिष्टुप्त्रैष्टुभम् प्रैष्टुभम् माध्यन्दिनम् माध्यन्तिनगुम् सवनम् सवनम् माध्यन्दिने माध्यन्दिन एव सवने सवने प्रतिकरे प्रतिकरे छन्दागुंसि प्रतिकर प्रतिकरे छन्दागुंसि सम् सम्पादयति पादयत्यथोः इत्य ृष्टुक् तिष्टुगिन्द्रियम् इन्द्रियम् माध्यन्दिनम् माध्यन्दिनकम् सवनम् सवनमिन्द्रियम् एवमाध्यन्दिने माध्यन्दिने सवने सवन आत्मन् आत्मन् आत्मं धत्त उक्थम् उक्तं वाचि वाचीन्द्राय इन्द्राजेति इत्याह आह तृतीयसवनम् तृतीयसवनम् प्रतिकीर्य तृतीयसपदमिति तृतीयासपदम् प्रतिकीर्य सप्त प्रतिकीर्येति प्रतिकीर्य सप्तैतानि एतान्यक्षराणि अक्षराणि सप्तपदा सप्तपदा शक्वरी सप्तपदेति सप्तापदाः शक्वरी शाक्वराः शाक्वराः पशवः पशवो जागतम् जागतम् तृतीयसवनम् तृतीयसवनम् तृतीयसवने तृतीयसवनमिति तृतीया सवनम् तृतीयसवन एव तृतीयसवन इति तृतीया सवने एव प्रतिकरे प्रतिकरे छन्दागुंसि प्रतिकर इति प्रतिकरे छन्दागुंसि सम्पादयति पादयत्यथोः अथवा पशवः अथो इत्यथोः पशवो वै जगति जगति पशवः पशवस्तृतीयसवनम् तृतीयसवनम् पशून् तृतीयसवनमिति तृतीयसवनम् पशूनेव एव तृतीयसवने तृतीयसवन आत्मन् तृतीयसवन इति तृतीयसवने आत्मन् धत्ते धत्ते यत् यद्वै वै होता होता धर्युम् धर्युमभ्याह्वयते अभ्याह्वेत आव्यम् अभ्याह्वेत इत्यभिः आव्यमस्मिन् अस्मिन् दधाति दधाति तत् तद्यत् नापहनीत अपहनीत पुरा अपहनीतेत्यपहनीत पुरास्य तस्य संवत्सरात् संवत्सराद्गृहे संवत्सरादिति संवत्सरात् गृह आ वेवीरन् वेवीरन् शोगुंसा आ शोगुंसामोदः शो मोद इव इति प्रत्याह्वयते प्रत्याह्वयते तेन प्रत्याह्वयत इति प्रति आह्वयते तेन एव तत् तदप अपहते हते यथा यथा वि वा आयताम् आयताम् प्रतीक्षते आयतामित्यायताम् प्रतीक्षत एवम् प्रतीक्षत इति प्रतीक्षते एवमद्धर्युः अद्धर्युः प्रतिकरम् प्रतिकरम् प्रति प्रतिकरमिति प्रतिकरम् प्रतीक्षते ईक्षते यत् यदभिप्रतिगृणीयात् अभिप्रतिगृणीयाद्यथा अभिप्रतिगृणीयादित्यभिप्रतिगणीयात् यथायतया आयतया समृच्छते आयतयेत्यायतया संच्छते तादृक् संरक्षतृच्छते तादृगेव एव तत् तद्यत् यदर्धर्चात् अर्धर्चाल् लुप्येत अर्धर्चाल् इत्यर्धारुचात् लुप्येत यथा यथा धावद्भ्यः धावद्भ्यो हीयते धावद्भ्य इति धावद्भ्यः हीयते तादृक् तादृगेव एतत् तत्प्रवाहुक् प्रवाहु द्वै उद्गीथा उद्गीतः उद्गीथा इत्युद्गीथाः उद्गीथ एवोद्गातृणाम् उद्घातृणा वृचः उद्घातृणामित्युचगातृणाम् ऋचः प्राणवः प्रणव उत्थशकुंसिना अहम् प्रतिकरः उत्थशकंसिनामित्युक्तः शकुंसिनाहम् प्रतिकरो उद्धर्यूणाम् प्रतिकर इति प्रतिकरः उद्धर्यूणाम् यः एवम् एवम् विद्वान् विद्वान् प्रतिगृह्णाति प्रतिगृह्णात्यन्नादः प्रतिघ्णाति इति प्रतिघ्णाति उन्नाद एव उन्नाद इत्यन्नादः एव भवति भवत्या आस्य अस्य प्रजायाम् प्रजाया अम्बाजी प्रजायामिति प्राजायाम् वाजी जायत इयम् इयम् वै वै होताः होतासौ असावद्धर्युः हो, यदासीनः आसीनः शकुंसति शगुंसत्यस्याः अस्या एव तत् तद्धोताः होताना न इति एत्यास्तेः आस्त इव अथो इमाम् अथो इत्यथोः इमामेव एवतेन तेन यजमानः यजमानो दुहे गुहे यत् यत्तिष्ठन् तिष्ठन् प्रतिगृणाति तिष्थन प्रतिग्णात्यनुष्या आह प्रतिग्णातीति प्रतिगृहाणाति अनुष्या एव एव तत् तदद्धर्युः नैति यद्तिष्ठति तिष्ठतीव इव हि यदसौ अथो अमूम् अथो इत्यथोः अमूमेव एवतेन तेनयजमानः यतमानो दुहे दुहे यत् यदासीनः आसीनः शकुंसति शकुंसति तस्मात् तस्मादितः प्रदानम् इतः प्रदानम् देवाः इतः प्रदानमिलीतः प्रदानम् देवा उप प्रजीवन्ति जीवन्ति यत् यत्तिष्ठन् ततिष्ठन् प्रतिगृणाति प्रतिगृणादितस्मात् प्रतिगृणाते इति प्रतिगृह्णाति तस्मादमुतःप्रदानम् अमुतः मदःप्रदानमित्यमतः प्रधानम् दृश्या उप उपजीवन्ति जीवन्ति यत् यत्प्राङ् प्राङ्गासीनः आसीनश्चकंसति शकंसति प्रत्यङ् प्रत्यङ्गिष्ठन् तिष्ठन् प्रतिगृह्णाति प्रतिगृह्णाति तस्मात् प्रतिगृह्णाति इति तस्मात् प्राचीनम् प्राचीनम् प्रेतः प्रेतो धीयते प्रतीचीः प्रतीचीः प्रजाः प्रजा प्रजा इति प्राजाः जायन्ते यद्वै वै कोता अद्धर्यम् अद्धर्यमभ्याह्वयते अभ्याहूयते वज्रम् अभ्याह्वूयते इत्यभिः आह्वूयते वज्रमेनम् एनमभि अभिप्रवर्तयति वर्तयति परान् पराङ्गा आवर्तते वर्तते वज्रम् वज्रमेव एव तत् तन्नि निकरोति करोतीति करोति उपयामगृहीतोऽसि उपयामगृहीत इत्युपयामा गृहीतः वाक्षसत् वाक्षसदसि वाक्षसदिति वाक्षासत् असि वाक्पाभ्याम् वाक्पाभ्याम् त्वा वाक्पाभ्यामिति वागरूपाभ्याम् त्वाक्रतुपाभ्याम् क्रतुपाभ्यामस्य क्रतुपाभ्यामिति क्रदूपाभ्याहम् अस्य यज्ञस्य यज्ञस्य ध्रुवस्य ध्रुवस्याध्यक्षाभ्याम् अध्यक्षाभ्याम् गृह्णामि अध्यक्षाभ्यामित्यसि यक्षाभ्याम् गृह्णाम्युपजामगृहीतः उपदामगृहीतोऽसि उपदामगृहीत इत्युपजामागृहीतः अस्य तसत् ऋतसरसि ऋतसरित्रितासत् असि चक्षुष्पाभ्याम् चक्षुष्पाभ्याम् त्वा चक्षुष्पाभ्यामिति चक्षुपाभ्याम् त्वा क्रतुपाभ्याम् क्रतुपाभ्यामस्य अस्य यज्ञस्य यज्ञस्य ध्रुवस्य ध्रुवस्याध्यक्षाभ्याम् अध्यक्षाभ्याम् गृह्णामि अध्यक्षाभ्यामित्यधि रक्षाभ्याम् गृह्णामि पजामगृहीतः पजामगृहीतोऽसि पजामगृहीतृपजामागृहीतः अतिश्रुतसत् श्रुतसदसि श्रुतसदिति श्रुतसत् असिश्रोत्रपाभ्याहम् श्रोत्रपाभ्याम् त्वा श्रोत्रपाभ्यामिति श्रोत्रापाभ्याहम् त्वा क्रतुपाभ्यामम् क्रतुपाभ्यामस्य क्रतुपाभ्यामिति क्रतोपाभ्याम् अस्य यज्ञस्य यज्ञस्य ध्रुवस्य ध्रुवस्याध्यरिक्षाभ्याम् अध्यरिक्षाभ्याम् गृह्णामि अध्यरिक्षाभ्यामित्यधिरक्षाभ्याम् गृह्णामि देवेभ्यः देवेभ्यस्त्वा त्वाविश्वदेवेभ्यः विश्वदेवेभ्यस्त्वा विश्वदेवेभ्य इति विश्वादेवेभ्यः त्वाविश्वेयेभ्यः विश्वेयेभ्यस्त्वा त्वादेवेभ्यः देवेभ्यो विष्णोः विष्णगुरुक्रमरुक्रमैषः रुक्रमेत्युरुक्रम एष देः ते सोमः सोमस्तम् तम् रक्षस्व रक्षसु तम् तम् देहे ते दुश्चक्षा आह दुश्चक्षा अवक्ष्यत् ख्यन्मयी मैवसुः वसुः पुरोवसुः पुरोवसुर्वाक्पाः प्रोवसुरिति पुरः वसुः वाक्पा वाक्पा इति वाग्पाः वाचम् मे नेपाहि वाहिमयी मैवसुः वसुर्विदद्वसुः विदद्वसुश्चक्षुष्पाः विदद्वसुरिति विदद्वसुः चक्षुष्पा इति चक्षुषोपाः चक्षुर्मे नेपाहि वाहिमयी मैवसुः वसुः संयद्वसुः संयद्वसुरिति संयते वसुः श्रोत्रपाः श्रोत्रम् श्रोत्रपा इति श्रोत्रापाः श्रोत्रम् मे मेपाहि वाहिधूः भूरसि असिश्रेष्ठः श्रेष्ठोरश्मीनाम् अश्मीनाम् प्राणपाः प्राणपाः प्राणम् प्राणपा इति प्राणापाः प्राणम् मेः प्राणमिति प्राणम् मेपाहि वाहिधूः भूरसि असिश्रेष्ठः श्रेष्ठोरश्मीनाम् अश्मीनामपानपाः अपानपा अपानम् अपानपा इत्यपानपाः अपानम् मेः अपानमित्यपानम् मे पाहि पाह्यः यो नः न इन्द्रवायुः इन्द्रवायो मित्रावृणौ इन्द्रवायुः इति इन्द्रवायुः मित्रावृणावश्विणौ मित्रावृणाविति मित्रावृणौ अश्विनावभिदासति अभिदासति भ्रातृव्यः अभिदासति इत्यभिदासति भ्रातव्य उत्पिपीते उत्पीते शुभः उत्पपीत इत्युदपिपीते शुभस्पती पती इदम् पती इति पति इदमहम् अहम् तम् तमधरम् अधरम् वादयामि अधरम वादयामि यथाह यथे इन्द्र इन्द्राहम् अहमुत्तमः उत्तमश्चेतयानि उत्तम इत्युतोत्तमः चेतयानीति चेतयानि प्रसः सो अग्ने अग्ने तव तवोतिभिः ऊतिभिः भूतिभिरित्योतीभिः सुवीराभिस्तरति सुवीराभिरिति सुवीराभिः तरतिवाजकर्मभिः वाचकर्मभिरितिवाजकर्माभिः यस्य त्वाम् त्वम् सक्ष्यम् सक्षमाविथ आविधेत्याविथ प्रहोत्रे ए वोत्रे पूर्व्यम् वचः वचोग्नये ए अग्नये भरता बृहत् बृहदिति बृहत् पिपाम् ज्योतीगुंषि वीपाम् ज्योतीगुंषि बिभ्रते बिभ्रते वेधस इति वेधसे अग्नेत्री त्रिते वाजिना वाजिना त्री त्रिषधस्थाः सधस्था तिस्रः सधस्थेति सधास्थाः दिखवा, तिस्रस्ते ते जिह्वाः जिह्वाऋपजात उपजातपूर्वीः उपजातेऽत्रिताजात पूर्वीरिति पूर्वीः तिस्र उते ते तुलुवः तलुवो देववाताः देववातास्ताभिः देववाता इति देवावाताः ताभिर्नः नः पाहि पाहि गिरः गिरो अप्रयच्छन् अप्रयुच्छन्नित्यप्रायच्छन् सं वाङ्कर्मणा कर्मणा सम् समिषा इशा हिनोमि हिनोमीन्द्राविष्णु इन्द्राविष्णु अपसः इन्द्राविष्णु इति इन्द्राविष्णुः अपसस्पारे पारे अस्य अस्येत्यस्य विषेथा अयम् यज्ञम् यत्नम् द्रविणम् द्रविणम् च धत्तम् धत्तमरिष्टैः अरिष्टैर्नः नः पथिभिः पथिभिः पारयन्त पथिभिरिति पथिभिः पारयन्ता उभाजिग्यथथुः थो, जिज्ञथुर्न न पराजयेथे जयेथेन जयेथे इति जयेथे न पराजिज्ञे जिज्ञे कतरः कतरश्च न च नैनोः इन्द्रश्च च विष्णोः विष्णो इति विष्णो यदपस्पृथेथाम् अपस्पृथेथाम् त्रेधा धासहस्रम् सहस्रम् सहस्रम वितत् तदैलयेथाम् ऐलयेथामित्यैलयेथाम् त्रीण्यायोगुंसि आयोगुंषि तव तव तब जातवेदः जातवेदस्तिस्रः जातवेद इति जातावेदः तिस्रः आजानीः आजानीरुषसः आजानीरित्या आजानीः ऋषसस्ते हे अग्नेः इत्यग्ने ताभिर्देवानाम् देवानामवः अवो यक्षि यक्षि विद्वान् विद्वान अथा भव भवयजमानाय यजमानायशाम् संयोः योरिजयोः अग्निस्त्रीणि त्रीणि त्रिधातूनि त्रिधातोऽन्या त्रिधातूनीति त्रिधातूनि आर्क्षेति क्षेतिविदथाः विदथा कविः कविरिति कविः स त्रीन् त्रीगुम्रेकादशान् एकादशागुम् इह विहेतीह यक्षच्च च विप्रयत् विप्रयच्च च नः नो विप्रः विप्रो दूतः दूतः परिष्कृतः परिष्कृत इति परिष्कृतः लभन्तामन्यके अन्यके समे सम इति समे इन्द्राविष्णो दुर्गंहिताः इन्द्राविष्णो इति इन्द्राविष्णोः दुर्गंहिताः शम्बरस्य शम्बरस्य नव नव पुरः पुरोनवतिम् नवतिम् चष्टम् शतम् वर्तिनः वर्तिनः सहस्रम् सहस्रम् च साकम् साकम् हथः हथो अप्रति अप्रत्यसुरस्य असुरस्य वीरान् वीरानिति वीरान् उत माता मातामहिषम् महिषमनु अन्ववेनत् अवेनदमी अमी त्वा अमी इत्यमी त्वा जहति देवाः तथा अब्रवीत् अब्रवीद्वृत्रम् वृत्रमिन्द्रः इन्द्रोऽहनिष्यन् अनिष्यान् सखे सखे विष्णो विष्णो वितरम् विष्णो इति विष्णो वितरम् वि वितरमिति वीतलम् विक्रमस्व क्रमस्वेति क्रमस्व तृतीयकाण्डे द्वितीयः प्रश्नः समाप्तः